श्री हरि ओम् श्रीसीतारामचन्द्राभ्यामः भरतेन श्री श्रीराम रामाय राज्यस्य पुनः श्री रामस्य नगरे गमनम् राज्येभिषेक वानराणाम् प्रस्थापनम् ग्रन्थस्य माहात्म्यम् च शिरस्य अञ्जलिमाधाय कैकेयी नन्दिवर्धन बभाषे भरतो ज्येष्ठम् रामम् सत्यपराक्रमम् पूजिता मामिका माता दत्तम् राज्यमिदं मम तद्ददामि पुनर्तुभ्यम् यथा त्वम् अददा ज्वरम् एकाकिना न्यस्ताम् वृषभेण बलीयत किशोरव गुरुम् भारम् न मे वारिवेगे नमाता महता भिन्ना सेतुरिवक्षरन् दुर्बन्धनमिदम् मन्ये राजच्छीद्रम् असंवृतम् गतिम् खरैवाश्वस्य हंसस्यैव नान्वेतुमुत्सहे वीर तव मार्गं अरिन्दमम् यथाचारोः पिता वृक्षो धातश्चान्तर्निवेशने महानपि दुरारोह महास्कन्धः प्रशाखवां। क्षीर्यतः पुष्पितो भूत्वा न फलानि प्रदर्शयन् तस्य नानुभवेदर्थम् यस्य हेतोसरोपितः एषोपमा महाबाहु त्वम् अर्थम् वेत्तुमर्हसि यद्यस्मान् मनुजेन्द्र त्वम् भक्ता भूत्यन्नषाधिः जगद्द्याभिजिक्तम् त्वाम् अनुपैष्यतु राघवे पतपन्तम् विवादित्यम् मध्य नेदित्त तेजसम् तूर्य संघात निर्घोषै काञ्चीनूपरि निधुरै गीतशब्दैश्च प्रतिबुद्ध्यः स्व यावदावर्तते चक्रम् यावती च सुन्धर तावत् तम् इह लोकस्य स्वामित्वम् अनुवर्तय भरतस्यैव च श्रुत्वा रामः पुरञ्जय तथेति प्रतिजग्राह निशसादासने शुभे तथशत्रुघ्नवचनान् निपुणा श्मश्रुवर्धन सुखहस्ता सुीघ्रा च राघवम् पर्यवारयन् पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले सुग्रीवे मादन्द्रे च राक्षसेन्द्रे विभीषणे विचोधित यटस्नात चित्रमाल्यानुलेपनः महारः वसु लोपेत तस्थो तत्र श्रीया श्रीयाज्वलन् प्रतिकर्म च रामस्य कारयामास वीर्यवान् लक्ष्मणस्य च लक्ष्मीवान् इक्ष्वाकोकुलमर्धनः प्रतिकर्म च सीतायाः सर्वादशरथ स्त्रियः आत्मनैव तदा चक्रु मनस्विन्यो महामनोहरं ततो वानरपत्नीनाम् सर्वासामेव शोभनम् चकारयत्नात् कौसल्या प्रवृष्टा पुत्रवत्सला तथा शत्रुविघ्नवचनात् सुमन्त्रो नाम सारथी योजयित्वाभिचक्राम रथम् सर्वाङ्गशोभनम् अग्नि अग्निर्कामरसङ्गाशम् दिव्यं दृष्ट्वा रथं स्थितम् अरुरोह महाबाहू रामः परपुरञ्जयः सुग्रीवो हनुमा चैव महेन्द्र सदृश द्युती स्नातो दिविनिभैर्वस्त्री जग्मतु शुभकुण्डलौ सर्वाभरणजुष्टा च ययुस्ता शुभकुण्डलः सुग्रीव पत्न्या सीता अयोध्यायाञ्च सचिवा राज्ञो दशरथस्य च पुरोहितम् पुरस्कृत्य मन्त्र्या मासुरर्थवत् मा अशोको विजयश्चैव सिद्धार्थश्च समाहितः मन्त्रेन्द्रामवृद्ध्यर्थम् वृद्ध्यर्थम् नगरस्य च सर्वम् एवाभिषेकार्थम् जयाहस्य महात्मनः अरहत रामस्य यज्ञन्मङ्गलपूर्वकम् इतेते मन्त्रिणः सर्वे सन्दिश्य च पुरोहितः नगरान् यो तूर्णम् रामदर्शन बुद्धयः हरियुक्तम् सहस्राशौ रथमिन्द्र इव नघ प्रययो रथमाथाय रामो नगरमुत्तमम् जग्राह भरतो रज्मिन् शत्रुघ्नछद्रमाधरे लक्ष्मणो व्यजनम् तस्य मूर्नि संवेजयन् तदा श्वेतं च बालव्यजनम् जगृहे परितस्थितः अपरं चन्द्रसङ्काशम् राक्षसेन्द्रो विभीषणः तदा तदाकाशे देवैश्च सर्वणै स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनि ततशत्रुञ्जयम् नाम कुञ्जरम् पर्वतोपमम् अरुरोह महतेजा सुग्रीव प्लवकर्षभ नव नागसहस्राणि ययूरास्थाय वानरः मानुषं विग्रहं कृत्वा सर्वभरणभूषितः शङ्ख शब्दप्रणाभैश्च दुन्दुभीनां च निस्वने त्रययो पुरुष व्याघ्र तां पुरीं हर्म्यमारिणीं ददुषु स्ते समायान्तम् राघवं च पुरस्सरम् विराजमानं वपुषा रथे नास्ति रथं तदा ते वर्धयित्वा काकुत्स्थम् रामेण प्रतिनन्दितः अनुजग्मुर् महात्मानम् भ्रातृभिः परिवारितम् समात्य एव चैव तथा प्रकृतिभिर्वृतः श्रियाविरू च रामो नक्षत्रैरेव चन्द्रमा स पुरोगामिभिः सूर्यै कालस्वस्तिकपाणिभिः सव्याहृद्भिः मुदितैः मङ्गला निवृतो ययो अक्षतम् जातुरूपम् च गावः कन्यासु हसः न रामोदकः सा च रामस्य पुरतो ययुः सख्यं च रामः प्रभावं चानिलात्मजे वानराणां च तत्कर्म या च चक्षयेथ मन्त्रिणां श्रुत्वा च विस्मयं जग्मु अयोध्यापुरवासिनः वानराणां च तत् राक्षसानां च तद्बलम् विभीषणस्य संयोगम् आचक्षयेथ आच मन्त्रिणाम् द्युतीयमाने तदाख्याय रामो वा नरसंयुतः वृष्टपूष्ट जनाकीणाम् अयोध्याम् प्रविवेशसः ततो हि अभ्युश्रयन् पौरा पताकाश्च गृहे गृहे ऐक्ष्वाकाध्युषितम् रम्यम् आससादः पितुर्गृहम् अथाब्रवीत् राजपुत्रो भरतम् धर्मिणाम् वरम् अर्थोपहित आवाच मधुरम् रघुनन्दनः पितुर्भवनमासाद्य प्रविश्य च महात्मनः कौसल्याञ्च सुमित्राञ्च कैकेयीम् अभिवाद्य च तच्च मद्भवनम् श्रेष्ठम् साशु कनिकम् महेत् मुक्ता वैदुर्य सुग्रीवाय निवेदय तस्य तद्वचनम् श्रुत्वा भरतः सत्यविक्रमः हस्ते गृहीत्वा सुग्रीवम् प्रविवेश तमालयं ततः शैलः प्रदीपा च पर्यङ्काचरणानि च गृहीत्वा विविशु क्षेत्रम् शत्रुघ्नेन उवाच च महातेजा सुग्रीवम् राघवानुजः अभिषेकाय रामस्य दूतान् आज्ञापय प्रभो सौवर्णान् वानरेन्द्राणाम् चतुर्णाम् चतुर्घटान् ददक्षिप्रम् तदुग्रीव सर्वरत्नविभूषितान् तथा प्रत्यूषसमये चतुर्णाम् सागराम्भताम् पूर्णै घटे प्रतीक्षम् तथा कुरुहृत एवम् उक्ता महात्मानो वानरः वारणोपमः उत्प्रेतुर्गगनं शीघ्रम् गरुड इव शीघ्रगः जाम्बमा च हनुमा च वेगदर्शि च वानरः वृषभैश्चैव कलशान् जलपूर्णान्नयन् नदीशतानां पञ्चानां जलं कुम्भै उपाहरन् पूर्वात्समुद्रात् कलशम् जल पूर्णम् अथानयत् सुषेण सत्त्वसम्पन्न सर्वरत्न विभूषितं वृषभो दक्षिणातूर्णम् समुद्रा जलमानयत् रक्तचन्दन कर्पूरै संवृतं काञ्चनम् घटम् गवय पश्चिमतोयम् अजहार महर्णवात् रत्नकुम्भेन महता शीतम् मारुत विक्रमः उत्तराच्च जलं शीघ्रम् गरुडः नीलविक्रमः अजर स धर्मात्मा नील सर्वगुणान्वितः ततस्तैवानरश्रेष्ठै आनीतम् प्रेक्षत जलम् अभिषेकाय रामस्य शत्रुघ्न सचिवैसः पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदय ततस्त प्रयतो वृद्धौ वसिष्ठो ब्रह्मणै सह रामम् रत्नमये पीठे सीतंयत् वसिष्ठे वामदेवश्च जाबाली रथ काश्यपः काचाय नयज्ञश्च गौतमो विजयस्तथा अभ्यसिञ्चन्नरव्याघ्रम् प्रसन्नेन सुगन्धिन सलिलेन सह्राक्षम् वसवो वासवं यथा पृथिग्भिः ब्रह्मणैः पूर्वं कन्याभिः मन्त्रिभिस्तथा योधैश्चैवाभ्यषिञ्चस्ति सम्प्रकृष्टैः समैगमयै सर्वोषधीरसैश्चापि दैवतै स्थितै चतुर्भि लोकपालैश्च सर्वै देवैच संगतै, सङ्गतै निर्मितं पूर्वं किरीटं रत्नशोभितम् अभिषिक्त पुरायेण मनुस्तम् दीप्त तेजसम् तस्यान्वय तस्यान्ववाये राजानः क्रमाद्येनाभिषेचितः सभायाम् हेमक्लुप्तायाम् शोभितायाम् हाधनये रत्ने चैवे, चैव चित्रितायाम् शुभो सुशोभने नानारत्नमये पीठे कल्पयित्वा यथाविधि किरीटेन ततः पश्चात् वसिष्ठेन महात्मनः रुत्रिग्भिभूषणैश्चैव समयोक्षतराघव चक्रस्य च जग्राह शत्रुघ्न पाण्डुरम् शुभम् श्वेतं च बालव्यजनम् सुग्रीवो वानरेश्वरः अपरं चन्द्र संघाशम् विभीषणः मालां ज्वलन्तीं वपुशः काञ्चनीं शतपुष्कराम् राघवायः ददो वायु वासवेन प्रचोदितः सर्वरत्नसमायुक्तम् मणिभिश्च विभूषितम् मुक्ताहारम् नरेन्द्राय ददो शक्र प्रचोदितः सज गुरुदेव गन्धर्व नन्द्ररोगणः अभिषेके तदरहस्य तदारामस्य रामस्य धीमतः गोमीशस्यवती चैव फलवन्तश्च पादपः गन्धवन्ति च पुष्पाणि बभूवु राघवोत्सवे सहस्रशतमध्वानां धेनूनां च गवां तथा ददोशतवृषान् पूर्वं द्विजेभ्यो मनुज त्रिंशत् कोटि ब्राह्मणेभ्यो दलो भ्योद लोपुनह न भरणवस्त्राणि महार्हाणि च राघव अर्करश्मि प्रतिकाशाम् काञ्चनीम् मणिविग्रहाम् सुग्रीवाय श्रयम् दिव्याम् प्रयच्छन् मनुजाधिप वैदुर्य मय चित्रे विभूजिते वाले पुत्राय श्रुतिमान् अङ्गदायाङ्गदे ददो मणिप्रवरजुष्ठन्तरम् मनोत्तमम् सीतायै प्रददो राम चन्द्र समप्रभं अरजे वासवे दिव्ये शुभान्याभरणानि च अवेक्षमाणा वैदेही प्रददो वायुसु नवे अमुच्यात्मनः जनकनन्दिनी अवैक्षत हरिन्धर्वान् भट्टारं च मुहुर्मुः मुहु। ताम् इङ्गितज्ञा सम्प्रेक्षे बभाषे जनकात्मजाम् प्रदेहि सुभगे हारम् यस्य तुष्टासि भामिने अथ सा वायुपुत्राय संहारम् असि देक्षणा तेजो धृतिर्यशो दाक्ष्यं सामर्थ्यं विनयो पौरुषं विक्रमो बुद्धिः यस्मिन् एता नित्य हनुमान्तेन हारेण शुशुभे वा नृषभे चन्द्रांशु च य घोरेण श्वेताभ्रेण यथाचलः सर्वे वा नरयुद्धा च ये प्रतिपूजितः विभीषणोऽथ सुग्रीवो हनुमान्जाम्बवसर्वे वानरमुख्या च रामेणाकृष्ट कर्मणा यथारहं पूजिता सर्वे कामय रत्नय च पुष्कले प्रवृष्ट मनस सर्वे जग्मुरेव यथागतम् ततो द्विध महिन्दाभ्याम् नीलाय च परन्तप सर्वान् कामगुणान् वीक्ष्य प्रदरो वसुधाधिपः दृष्ट्वा सर्वे महात्मान ततस्यै वानरशभ विसृष्टा पार्थिवेन्द्रेण किष्किन्धां समुपागमन् सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् पूजितस्यैव रामेण किष्किन्धां प्रविषत् पुरीम् धर्मात्मा सै नैऋत लब्धा कुल धनं राजा लङ्काम् प्रायाम् महायशः स्वराज्यम् अखिलम् शासन नेतारी महर्षय राघवे परमोदारशासे परय मुदा वाच लक्ष्मणं रामो धर्मज्ञम् धर्मवत्सलः अस्तिष्ठ धर्मज्ञ मया सह मां ग पूर्व राज तुल्य मैया तम पितृभताजे धुर्म स्व सर्वात्मीयम यदा न सौमे त्रि उपायुज्यूयौराजे तथभ्यरत आत्मा, पौंडलीकाश मेघा मेधाभ्या वाजपेय ना शिखृ <Sümassive> अन्यैश्च विविधयन्नि अयजेत पार्थिवात्मजः राज्यं दशः सहस्राणि सप्तवर्षाणि राघव शताश्वमेधा नाजर्हे सदश्वान् भूरि रक्षिणान् आजानुलम्ब्य बाहू स महावक्ष प्रतापवान् लक्ष्मणानुचरो राम शशा स पृथिवीम् चापि धर्मात्मा प्राप्य राज्यम् अनुत्तमम् ईजे बहुविधे अन्यै स सुति बान्धवः न पर्यदेवन् विधवा न च व्यालकृतम् भयम् न व्याधीजम् भयम् चासीत् रामे राज्यम् प्रशासति निर्दस्योरभवत् लोको नार्थं कश्चिदस्पृशत् न ना च स्म वृद्धा बालानाम् ेतकार्याणि कुर्वते सर्वम् सर्वो धर्मपरो भवेत् रामम् एवानुपश्यन्तु नाभ्य हिन् परस्परम् तथा पुत्र सहस्रिणः निरामय रामे राजम् रामो रामो राम कथा रामभूतम् जगद्भूत्र जगद्भूत रामे राजम प्रशासति नित्यमूला नित्यफला तरवय तत्र पुष्पितः कामवर्षी च पर्जन्य सुखस्पर्शः च मारुतः ब्राह्मणा चत्रिया वैश्या क्षुद्रा लोभविवर्जितः स्वकर्मसु प्रवर्तन्ते तुष्टा स्वैरेव कर्मभिः आसन् प्रजा धर्मपरा रामेशास्ति नानृतः सर्वे लक्षणसम्पन्ना सर्वे धर्मपरायणः दश वर्ष सहस्राणि दश श्रीमान् रामो राजम् अकारयत् यशस्य मानुष्यम् राज्ञां च विजया वहम् आदिकाव्यम् विदम् चार्षम् पुरा वाल्मीकिना कृतम् यः शृणोति सदा लोके नरपापात्रमुच्यते पुत्रकामा च पुत्रान्वि धनकामो धनानि च लभते मनुजो लोके श्रुत्वा रामाभिषेचनम् महिं विजयते राजा रिपुंशाप्यधि तिष्ठति राघवेण यथा माता सुमित्रा लक्ष्मणेन च च कैकेयी जीव पुत्रा तथा श्रीय भविष्यन्ति सदानन्दाः पुत्रपौत्र समन्वितः श्रुत्वा रामायणमिदम् दीर्घम् आयुश्च विन्दति रामस्य विजयं चेमम् सर्वम् अक्लिष्ट कर्मणः शृणोति इदम् काव्यम् पुरा वाल्मीकिकिना कृतं श्रद्धानो दुर्गाण्यतीतरस्य च समागम्य प्रवासान्ते रमन्ते सह बान्धवै शृण्वन्ते य इदम् काव्यम् पुरा वाल्मीकिना कृतम् ते प्रार्थितान् वरान् सर्वान् प्राप्नुवन्ति ह राघवात् श्रवणेन सुराः सर्वे प्रीयन्ते सम्प्रसून्वताम् विनायका च गृहे तिष्ठन्ति यस्य वै विजयेत महीं प्रवासी स्वस्ति मान्धवेत् स्त्रियोरजसला श्रुत्वा पुत्रान् सूयूरनुत्तमान् पूजयश्च पठन् जयनम् इतिहासम् पुरातनम् सर्वपापै प्रमुच्येत प्रणम्य शिरसा नित्यं श्रोतव्यम् क्षत्रिये त्रिजात् ऐश्वर्यं पुत्रलाभस्य भविष्यति न संशयः रामायणम् इदं कृष्णं शृण्वतः पटद सदा प्रियते सततं राम स हि विष्णुसनातनः आदिदेवो महाबाहु हरिनारायणप्रभृ साक्षात् रामो रघु श्रेष्ठ शेषु लक्ष्मण उच्यते एवम् एतत् प्रावृत्तम् आख्यानं भद्रमस्तु वा प्रव्याहर्त बलं विष्णो प्रवर्धताम् देवाच सर्वे तुष्यन्ति ग्रहणाश्रवणा तथा रामायणश्च श्रवणे तृप्यन्ति पितर सदा भक्त्या रामस्य ये चै मां संहितां ऋषिणा कृताम् ये लिखन्ति तेषां व्यासस्त्रिविष्टपि कुटुम्बवृद्धिम् धनधान्यवृद्धिम् श्रियस्य मुख्या सुखमुत्तमम् च श्रुत्वा शुभम् काव्यमिदम् हार्थम् प्राप्नोति सर्वाम् भुवि चार्थसिद्धिम् आयुष्यमारोग्यकरम् यशस्यम् सौभ्रातृकम् बुद्धिकरम् शुभम् च श्रोतव्यमेतन्नियमेन सद्भि इत्यार्थे श्रीमद् रामायणे वाल्मीके आदिकावे युद्धकाण्डे अष्टाविंशति अधिकतम अधिकशततमसर्ग युद्धकाण्डम् सम्पूर्णम् श्रीसीतारामचन्द्रार्पणमस्तु